हम्भायमाना कल्याणि वसिष्ठस्याथ नन्दिनी आगम्याभिमुखी पार्थतस्थौ भगवदुन्मुखी भृशम् च ताड्यमाना वसिष्ठ उवाच शृणोमि तेरवम् भद्रे विनदन्त्याः पुनः पुनः ह्रियसे त्वम् बलाद्भद्रे विश्वामित्रेण नन्दिनि किङ्कर्तव्यम् मया तत्र क्षमावान् ब्राह्मणो ह्यहम् गन्धर्व उवाच सा भयानन्दिनी तेषाम् बलानाम् भरतर्षभ विश्वामित्रभयोद्विग्नावसिष्ठम् समुपागमत् गौरुवाच कशाग्रदण्डाभिहताम् क्रोशन्तीम् मामनाथवत् विश्वामित्रबलैर्घोरैर्भगवन् किमुपेक्षसे गन्धर्व उवाच नन्दिन्यामेवम् क्रन्दन्त्याम् धर्षितायाम् महामुनिः न चुक्षुभे तदा धैर्यान्न च चाल धृतव्रतः वसिष्ठ उवाच क्षत्रियाणाम् बलम् तेजो ब्राह्मणानाम् क्षमा बलम् क्षमा माम् भजते यस्माद् गम्यताम् यदि रोचते